सप्तमोऽध्यायः ध्यानम् ओ ध्यायेयम् रत्नपीठे सुतकलपठितम् शृण्वतीम् श्यामलाङ्गीम् न्यस्तैकाङ्घ्रिम् सरोजे शशिशकलधराम् वल्लकीम् वादयन्ती कल्लाराबद्धमालाम् नियमितविरसच्चोलिकाम् रक्तवस्त्राम् मातङ्गीम् शङ्खपात्राम् मधुरमधुमदाम् चित्रकोद्भासि भाला ओम् ऋषिर्वाच आज्ञप्तास्ते ततो दैत्याश्चण्डमुण्डपुरोगमाः चतुरङ्गबलोपेता यजुरभ्युद्यतायुधाः ददृशस्ते ततो देवीमीषद्धासाम् व्यवस्थिता सिंहस्योपरि शैलेन्द्रशृङ्गे महति काञ्चने ते दृष्ट्वा ताम् समादातुमुद्यमम् चक्रोरुद्यताः आकृष्टचापासिधरास्तथान्येतत्समीपगाः ततः कोपम् चकारोच्चैरम्बिका ता नरीन् प्रति कोपेन चास्या वदनम् मशीवर्णमभूतदा भ्रुकुटिकुटिलात् तस्या ललाटफलकाद्रुतम् कालीकराल वदना विनिष्क्रान्तासिपाशिनी विचित्रखड्वाङ्गधरा नरमाला विभूषणा द्वीपि चर्मपरीधाना शुष्कमाम् सातिभैरवा अतिविस्तार वदना जिह्वालनभीषणा निमग्ना रक्तनयना नादापूरितदिङ्मुखा सा वेगेनाभिपतिता घातयन्ती महासुरान् सैन्ये तत्र सैन्य त्र सुरम भक्षत तदल पाष्णिग्राहाकुश्राही योधंटा सन्वतायस्तेन मुखे चिक्षेप वरण तथा योधं तुरगरथं सारथिना सह निक्षिप्य वक् दशने्यतिरव एक जहकेशवायाम थर पादेनाक्रम्य चैवान्यमुरसान्यमपोथयत तैर्मुक्तानि च शस्त्राणि महास्त्राणि तथा सुरैः मुखेन जग्राहरुषा दशनैर्मथितान्यपि बलिनाम् तद्बलम् सर्वमसुराणाम् दुरात्मनाम् ममर्दाभक्षयच्चान्यानन्याश्चाताडयत्तथा असिनानि हताः केचित् केचित् जिक खड्वाम् गताडिताः जग्मुर्विनाशमसुरा दन्ताग्राभिहतास्तथा क्षणेन तद्बलम् सर्वमसुराणाम् निपातितम् दृष्ट्वा चण्डोऽभिदुद्रावताम् कालीमतिभीषणाम् सर्ववर्षैर्महाभीमैर्भीमा क्षीम् ताम् महासुरः छादयामास चक्रैश्च तानि चक्राण्यनेकानि विषमानानि तन्मुखम् बभुर्यथार्कबिम्बानि सुबहूनि घनोदरम् ततो जहासातिरुषा भीमम् भैरवनादिनी कालीकरालवक्त्रान्तर्दुर्दर्शदशनोज्ज्वला उत्थाय च महासिंहम् देवी चण्डमधावत गृहीत्वा चास्य केशेषु शिरस्तेनासिनाच्छिनत् अथ मुण्डोऽभ्यधावत्ताम् दृष्ट्वा चण्डम् निपातितम् तमप्यपातयद्भूमौ सा खड्गा विहतम् वृषा हतशेषम् ततः सैन्यम् दृष्ट्वा चण्डम् निपातितम् मुण्डम् च सुमहवीर्यम् दिशो भेजे भयातुरम् शिरश्चण्डस्य काली च गृहीत्वा मया रवात्रोपहृतौ चण्डमुण्डो महापशु युद्धयज्ञे स्वयम् शुम्भम् निशुम्भम् च हनिष्यसि ऋषिरुवाच तावानीतौ ततो दृष्ट्वा चण्डमुण्डो महासुरौ उवाचकालीम् कल्याणी ललितम् चण्डिका वचः यस्माच्चण्डम् च च गृहीत्वा त्वमुपागता चामुण्डेति ततो लोके ख्याता देवी भविष्यसि ओ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये चण्डमुण्डवधो नाम सप्तमोऽध्यायः